भक्ष्यभोज्यैश्च विविधैर्यथा कामपुरस्कृतैः रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतं तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिको भवत् एतस्मात् कारणाद् राजन्हरिश्चन्द्रो विराजते तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभा समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान् अभिषिक्तश्च शुशुभे साम्राज्येन न राधिपा ये चान्ये च चा महीपाला राजसूयं महाक्रतुं यजन्ते ते च हेन्द्रेणा मोदन्ते भरतर्षभा ये चापि निधनं प्राप्ताः सङ्ग्रामेश्व ते तत्सदनमासाद्या मोदन्ते भरतर्षभा तपसाये च तीव्रेण त्यजन्तिह कलेवरं ते तत् स्थानं समासाद्या श्रीमन्तो भान्ति नित्यशः पिता चत्वारः कौन्तेया पाण्डुः कौरवनन्दना हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जात विस्मयः विज्ञायमानुषं लोकमायान्तं मां न प्रणतो भूत्वा वदेथास्त्वं युधिष्ठिरं समर्थोऽसि महीं जेतुं भ्रातरस्ते स्थितावशे राजसूयं क्रतुश्रेष्ठमाहरस्रेति भारत